रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः चीरवासाश्च कौरव्यभूमिपालश्च नामतः दन्तवक्त्रश्च नामासी दुर्जयश्चैव दानवः रुक्मीच नृपशार्दूलो राजा च जनमे जयः आषाढो वायुवेगश्च भूरितेजास्तथैव च एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः गणात्क्रोधवशादेश राजपूगो भवत्क्षितौ जातः पुरा महाभागो महाकीर्तिर्महाबलः महाबलः ख्यातो दानवानां महाबलः सकंस इति विख्यात उग्रसेनसुतो बली यस्त्वासीद्देव को नाम देवराजसमद्युतिः सगन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः बृहस्पतिर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत अंशाद्रोणं समुत्पन्नं भारद्वाजमयो निजं नृपशार्दूल यः सर्वास्त्रविदुत्तमः महाकीर्तिर्महाते महा च स जज्ञे वेदे च यन्तं वेदविदो विदुः वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् महादेवान्तकाभ्याञ्च कामात् क्रोधाच्च भारत एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः शत्रुपक्षभयावहः वीरः जज्ञिरेव सवस्पष्टौ गङ्गायां शान्तनो सुताः वसिष्ठस्य च शापेन नियोगाद्वासवस्य च तेषामवरजो भीष्मः कुरूणाम् अभयङ्करः मतिमान्वेद विद्वाग्मीशत्रुपक्षक्षक्षयंकरः जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः यो युध्यत महातेजा भार्गवेण महात्मना यस्तु कृपो नाम ब्रह्मर्षिरभवत्क्षितौ रुद्राणां तु गणाद्विद्धि सम्भूतमतिपौरुषं शकुनिर्नाम लोके लोक महारथ्वादन सात सत्य सोसौ वृश्कोद पक्षा सज्ञे मरुता मदन द्रुप्च राजत एवाभवदा मनुषे नृपलोकेशस्त्र भृतां वर है